शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्न उपशान्तयेत् ममोवात्त समस्तदुरिदक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्यर्थम् आदौ महागणपतिपूजाम् करिष्ये गणानान्त्वा गणपतिगुम् हवामहे कविम् कवेपमश्रवस्तमम् कभी ब्रह्मणाम् ब्रह्मणस्पथ न शृण्वम् नोति विश्रीतसाधनम् अस्मिन् हरिद्राबिम्बे महागणपतिम् ध्यायामि आवाहयामि आसनम् समर्पयामि अर्घ्यम् समर्पयामि पाद्यम् समर्पयामि आचमनीनम् समर्पयामि स्नानम् समर्पयामि वस्त्रम् समर्पयामि आभरणानि समर्पयामि गन्धान् धारयामि पुष्पाणि समर्पयामि पुष्पैः पूजयामि ओं सुमुखाय नमः ॐकदन्ताय नमः ॐ कपिलाय नमः ॐ गजकन्नराय नमः ओम लंबोदराय नम ओं विकटा नम ओं विघ्नराजा नम ओम गिणाजिराय नम ओं धूमकेतये नम ओं गणाध्यक्षा नम ओम फालचंद्रा नम ओं गजाननाय नम ओं वक्र तोंडा नम ओं शूर्पकर्णा नम ओं हेरंबाए ओम स्कंदपूर्व नम महागणपतले नमः धूमहाग्रामयामि दीपम् दर्शयामि नैवेद्यम् निवेदयामि कर्पूरनीराजनम् दर्शयामि मन्त्रपुष्पम् समर्पयामि वक्रतुण्ड महादाज कोटिसूर्य समप्रभा अविघ्नम् उरु देव सर्वकार्येषु सर्वदा विघ्नेश्वरम् यथास्थानम् प्रतिष्ठापयामि